मार्कण्डेयपुराणम् अध्यायं टु मार्कण्डेय उवाच अरिष्टनेमि पुत्रोऽभूद्गरुडो नाम पक्षिराड गरुडस्य भवत्पुत्रसम्पादिरिति विश्रुतः तस्याप्यासि सुदशूरसुपार्श्वो वायुविक्रमः सुपार्श्वतनयकुन्धिकुन्दिपुत्रः प्रलोलुपः तस्यापि तनया वास्तां कङ्घकन्धर एव च कङ्घकैलासशिखरे विद्युद्ध्रूवेदि विश्रुतं ददर्शाम्बुजपत्राक्षं राक्षसं धनदानुगम् आपानासक्तमलस्रग्धामाम्बरधारिणं भार्या सहायमासीनं शिलापट्टेमले शुभे प्रोवाचकस्मादायातस्त्वमिदोक्ष्यण्डजाधमस्त्रीसन्निकर्षे तिष्ठन्तं कस्मान्मामुपसर्पसि नैष धर्म सुबुदीना मेधो निष्पावस्वाच साधारण शैलेन्द्रो यूना ममदा भवंडेय उच ब्रुवाणमिद्धं खड्गेन कङ्गं चिञ्चेदराक्षसः क्षरत्क्षतच बीभत्सं विस्फुरन्दमचेतनं कङ्गं विनिहदं श्रुत्वा कन्धरक्रोधमूर्च्छिदः विद्युद्रूपवधायाशु मनश्चक्रेण्डजेश्वरः स गत्वा शैलशिखरं गङ्गो यत्र हतस्थितः तस्य संकलनं चक्रे भ्रादुर्ज्येष्ठस्य केचरः कोपामर्शविवृताक्षो नागेन्द्र इव निःश्वसन् जगामाध स यत्रास्ते भ्रादृहात्तस्य राक्षसः पक्षवादेन महदा चालयन् भूधरान् वरान् वेगात् पयोदजालानि विक्षिपन् क्षदजे क्षणः क्षणाक्षयिदशत्रुः स पक्षाभ्यां क्रान्तभूधरः पानासक्रमधिं तत्र तं ददर्शनिशाचरम् आदाम्रवक्त्रनयनं हेमपर्यङ्गमाश्रितं स्रग्धामापूरिदशिखं हरिचन्दनभूषितं केदकी गर्भपत्राभैर्दन्तैर्घोरतरानम् वामोरुमाश्रितां चास्य ददर्शायतलोचनाम् पत्नीं मदनिकां नाम पुंस्को किल कलस्वनां ततो रोषपरीतात्मा कन्धरकन्धरस्थितं तमुवाज सुदुष्टात्मनेहि युध्यस्वै मया यस्माज्ज्येष्ठो मम भ्राता विश्रब्धो खाततस्त्वया तस्मात् त्वां मदस्संसक्तं नयिष्ये यमसाधनं विश्वस्तकादीनां लोका ये च स्त्रीबालकादीनां यास्यसे निरयान् सर्वां तां त्वमद्य मया हतः मार्कण्डेय उवाच इत्येवं पदगेन्द्रेण प्रोक्तं स्त्रीसन्निधौ तदा रक्षक्रोधसमाविष्टं प्रत्यभाशदपक्षिणम् यदि ते निहदोभ्रादा पौरुषं तद्धिदर्शितं त्वामप्यद्यहनिष्येऽहं खड्गेनानेन खेचर तिष्ठक्षणं नात्र जीवन् पदगाधमयास्यसि इत्युक्त्वाञ्चनपुञ्चाभं विमलं खड्गमादते ततः पदगराजस्य यक्षाधिपठस्य च बभूव युद्धमदुलं यथा गरुडशक्रयोः ततः राक्षसक्रोधात् खड्गमाविध्य वेगवद चिक्षेप चिक्षेपदगेन्द्राय निर्वाणाङ्गारवर्चस्सं पदगेन्द्रश्च तं खड्गं किञ्चिदुत्प्लुत्य भूतलाद वक्त्रेण जग्राहतदा गरुडः पनगं यथा वक्त्र पादतलैर्भुङ्वा चक्रे चक्रेक्षोभमधातुलं तस्मिन् भग्ने तध खड्गे बाहुयुद्धमवर्तद तदः पदगराजेन वक्षस्याक्रम्य राक्षसः हस्तपादकरैराशु शिरसा वियोजितः तस्मिन् विनिहदे सा स्त्री खगं शरणमभ्यगाद किञ्चित् संजाद सन्त्रा सा प्राहभार्या भवामि ते तामादाय खगश्रेष्ठस्वगं गृहमगात्पुनः गत्वा स निष्कृतिं भ्रादुर्विद्युद्रुपनिपातनात् कन्धरस्य च सावेष्म प्राप्ये चारूपधारिणी मेनकातनया शुभ्रूः सौवर्णं रूपमाददे तस्यां स जनयामास तार्क्षों नाम सुधां तदा मुनिशाभाग्निविप्लुष्टां वपुमप्सरसां वराम् तस्या नाम तदा चक्रे तार्क्ष्योमिति बुद्धयः मन्दपालसुधाश्चासंश्चत्वारोमिदबुद्धयः जरितारिप्रभृतयो द्रोणान्ताद्विजसप्तमाः तेषां जघन्यो धर्मात्मा वेदवेदाङ्गपारगः उभये मे स तर्क्षों कंधराुम शुभा कसचिव कालस्य तारक्षो गर्भमवाप सप्तक्षाहि गर्भे जगामसा कुेत्र युद्धे वर्तमाने सुदारुणे वित्वाच्चैव कार्यस्य रणमध्ये विवेशसा तत्रापश्यत्तदा युद्धं भगदत्तकिरीडिनोः निरन्तरं शरैरासीदाकाश्यं शलभैरिव पार्थको दण्डनिर्मुक्तमासन्नमधिवेगवत् तस्या भल्लमहिश्यामं त्वचं चिच्छेदजाढरीं भिन्ने कोष्ठे शशाङ्काभं भूमा वण्डचतुष्टयम् आयुषसावशेषत्वालराशाविवापदत् तत्पाद च सुप्रतीकाद्गजोत्तमादपवादमहदीखण्डा बाणसञ्चिन्नबन्धना समं समन्दात्प्राप्तादु निर्भिन्नधरणीतला छादयन्ती कगाण्डानि स्थितानि पिशिदोपरि अते च तस्मिन्नृपदौ भगदत्ते नरेश्वरे भूद्युद्धं कुरु पाण्डवसैन्ययोः वृत्ते युद्धे धर्मपुत्रे गदे शान्तनवान्तिकं भीष्मस्य गददोषेषान् श्रोतुं धर्मान् महात्मनः खण्डागतानि तिष्ठन्ति यत्राण्ठानि द्विजोत्तम आजगाम आजगामतमुद्देश्यं शमेको नाम संयमी स तत्र शब्दमशृणोचिची कुचीति वास्यतां बाल्यादस्फुटवाक्यानां विज्ञानेऽपि परिषति शिष्य सहितो, कंडा मुत्पाट्य अधर्षिशिष्यसहितो खण्डामुत्पाट्यविस्मितः अमातृपितृपक्षाणि शिशुकानि ददर्शः तानि तत्र तथा भूमौ शमीको भगवान्मुनिः दृष्ट्वा स विस्मयाविष्टः प्रोवाचानुगदान् द्विजान् सम्यगुक्तं द्विजाग्र्येण शुक्रेणोशनसा स्वयं पलायनपरं दृष्ट्वा दैत्यसैन्यं सुरार्दितं न गन्तव्यं निवर्तध्वं कस्माद् व्रजध कादराः उत्सृज्य शौर्ययशसी क्व गदा न मरिष्यथ नश्यदो युध्यतो वापि तावद्भवदि जीवितं यावद्धादासृजत्पूर्वं न यावन्मनःसेप्सितम् एके म्रियन्ते स्वगृहे पलायन्तो परे जनाः भुञ्जन्तोन्नं तथैववापः पिबन्दो निधनं गदाः विलासिनस्तथैवान्ये कामयानानिरामयाः अविक्षताङ्गा शस्त्रैश्च प्रेदराजवशङ्गदाः अन्ये तपस्यभिरता नीताः प्रेदनृपानुगैः योगाभ्यासे रथाश्चान्ये नैवप्रापुरमृत्युदाम् शम्बराय पुराक्षिप्तं वज्रं कुलिशपाणिना हृदयेभिहदस्तेन तथापि न मृदोऽसुरः तेनैव खलु वज्रेण तेनैनेन्द्रेण दानवाः प्राप्ते काले हदा दैत्यास्तत्क्षणान्निधनं गदाः विधित्वैवं न सन्द्रासकर्तव्यो विनिवर्तते ततो निवृत्तास्ते दैत्यास्त्यक्त्वा मरणजं भयम् इति शुक्रवचः सत्यं कृतमेभिखगोत्तमैः ये युद्धेऽपि न सम्प्राप्ताः क्वाणाडानां पतनं विभ्रा क्व खण्डापतनं समं क्व च मांसवसारकृतैर्भूमेरास्तरणक्रियाः केप्येदे सर्वथा विप्रा नैदेसामान्यपक्षिणः दैवानुकूलदा लोके महा भाग्यप्रदर्शिनी यमुक्त्वा स तान्वीक्ष्य पुनर्वचनमब्रवीद निवर्तताश्रमं याद गृहीत्वा पक्षिबालकान् मार्जाराखुभयं यत्र नैषामण्डजन्मनां श्येनदो न कुलाद्वापि स्थाप्यन्ताम् तक पक्षिणा किंवादीयतन मय कर्म भीस्वक्यखिला जीवा यथिदिबाका नरै नरसुक कर्मसु कं वाच्यतां यादिनोऽसताम् यदि मुनिवरचोदितास्ततस्थे मुनितनया परिगृह्य पक्षिणस्तान्तरुविटपसमाश्रितालिसङ्घं ययुरधतापसरम्यमाश्रमं स्वम् स चापि वन्यं मनसाभिकामितं प्रगृह्यमूलं कुसुमं फलं कुशान् चकारचक्रायुधरुद्रवेधसां सुरेन्द्रवैवस्वतोजादवेधसाम् अपां पतेर्गोष्पदिवित्तरक्षिणोः समीरणस्यापि तथा द्विजोत्तमः धाधास्वदश्वि श्रुति प्रयुक्ता विवधास्त सक्रिया मकंडेयपुराणे चटकोत्पत्तिर्नामद्व्याय ओम।